ंशः सर्गः सतदा बालिनम् हत्वा सुग्रीवमभिषिच्य च प्रसन्माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत् अयम् सकालः सम्प्राप्तः समयोऽद्यजलागमः सम्पश्यत्वम् नभो मेघैः संवृतम् भास्करस्य गभस्तिभिः पीत्वा रसम् समुद्राणाम् रसायनं। प्रसूते रसायनम् शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः कुटजार्जुनमालाभिरलम् कर्तुम् दिवाकरः सन्ध्यारागोत्थितैस्ताम्रैरन्तेष्वपि च पाण्डुभिः स्निग्धैरभ्रपटच्छेदैर्बद्धव्रणमिवाम्बरम् मन्दवारुतिनिश्वासम् सन्ध्या चन्दनरञ्जितम् आपाण्डुजलदम्भाति कामातुरमिवाम्बरम् एषा घर्म परिक्लिष्टा नववारि परिप्लुता सीतेव शोकसन्तप्ता मही बाष्पम् विमुञ्चति मेघोदरविनिर्मुक्ताः कर्पूरदलशीतलाः शक्यमञ्जलिभिः पातुम् वाताः केतकगम्भिनः एष फुल्लार्जुनः सुग्रीव इव शान्तानिर्धाराभिरभिषिच्यते मेघकृष्णा जनधरा धारा यज्ञोपवीतिनः मारुता पूरितगुहाः प्राधीता इव पर्वताः कषाभिरिव हैमीभिर्विद्युद्भिरभिताडितम् अन्तस्तनितनिर्घोषम् सवेदनमिवाम्बरम् नीलमेघाश्रिता विद्युत्स्फुरन्ति प्रतिभाति फुरती रावणस्याक वैरेही वपस्विनी इमथवता इमास्ता दिशा अंलिप्ता इव घनैर्नग्रह निषाक क्वचि बाष्पा भी समुद्धा वर्षागम कुटजान पश्य सौ मित्रे पुष्ता गिरी सानुषु मम रजः प्रशान्तम् सहि मोद्य वायुर्निदाघदोष प्रसराः प्रशान्ताः स्थिता हि यात्रावसुधाधिपानाम् प्रवासिनो यान्ति नराः स्वदेशान् प्रियान्विताः सम्प्रति चक्रवाकाः यानानि मार्गेषु सम्पतन्ति क्वचित् प्रकाशम् क्वचिदप्रकाशम् नभः प्रकीर्णाम्बुधरम् विभाति क्वचित् क्वचित् क्वचित पर्वत सन्निरुद्धम् रूपम् यथाशाम् तमहार्णवस्य यामिश्रितम् सर्ज कदम्बपुष्पैर्नवम् जलम् पर्वत धातुताम्रम् मयोरकेकाभिरणु प्रयातम् शैलापगाः शीघ्रतरम् रसाकुलं षट्पद सन्निकाशम् प्रभुज्यते जम्ब फलम् प्रकामम् अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलम् विपक्वं। विद्युत्पताकाः सबलाकमालाः शैलेन्द्रकूटाकृति सन्निकाशाः गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव दिन्हा वर्षोदकाप्यायतशाद्वलानि प्रवृत्त नृत्तोत्सव बर्हिणानि वराणि निर्वृष्टबलाहकानि पश्यापराह्णेष्वधिकम् विभान्ति समुद्वहन्तः स लिलाति भारम् मेघाभिकामा परिसम्पतन्ती सम्मोदिता भाति बलाक पङ्क्तिः वातावधूतावरपौण्डरी कीलम्बेव वा माला रुचिराम्बरस्य बालेन्द्र विभाति भूमिर्नवशाद्वलेन गात्रानुपृक्तेन शुकप्रभेण नारीबलाक्षोक्षित निद्राशनैकेशवमभ्युपैति द्रुतम् नदी सागरमभ्युपैति हृष्टा बलाका घनमभ्युपैति कान्ता स कामा प्रियमभ्युपैति जाता वनान्ताः शिखि सुप्रनृत्ता जाताः कदम्बाः स कदम्ब शाखाः जाता वृषा समानकामा जाता मही सस्य वनाभिरामा वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति नद्यो घणा मत्त ताः प्रिया विहीनाः शिखिनः ना प्लवङ्गमा प्रहर्षिताः केतकि पुष्पगम् धमाघ्राय प्रपात शब्दा कुलिता गजेन्द्राः मयूरैः समदा धारानिपातैरभिहन्यमानाः कदम्ब शाखासु विलम्बमानाः क्षणार्जितम् पुष्परसा भगाढम् शनैर्मदम् षट्चरणास्त्यजन्ति अङ्गारचूर्णोत्कर सन्निकाशैः फलैः सुपर्याप्त रसैः समृद्धैः जम्बो द्रुमाणाम् तडित् पताकाभिरलङ्कृतानामुदीर्ण गम्भीर महारवाणाम् विभान्ति रूपाणि बलाहकानाम् रणोत्सुकानामिव मारणानाम् मार्गानुगः शैलवनानुसारी सम्प्रस्थितो मेघरवम् निशम्य युद्धाभिकामः प्रति मत्तो गजेन्द्रः प्रति क्वचित् प्रगीता इव षट्पदौघैः क्वचित् प्रवृत्ता इव नीलकण्ठैः क्वचित् प्रमत्ता इव वारणेन्द्रैर्विभान्त्यनेकाश्रयिणो वनान्ताः कदम्ब सर्जार्जुन कन्दलाढ्या वनान्त भूमिर्मधुवारिपूर्णा मयोरमत्ताभिरुत प्रणृत्तैरापान भूमि प्रतिमा विभाति मुक्ता समाभम् सलिलम् पतद्वैसु निर्मलम् पत्र पुटेषु लग्नम् हृष्टा क्वचित् प्रवृत्तैः क्वचिदुन्नदद्भिः क्वचिच्च वृक्षाग्रनिषण्णकायैः व्यालम्बबर्हाभरणैर्मयोरैर्वनेषु सङ्गीतमिव प्रवृत्तम् स्वनैर्घनानाम् प्लवगाः प्रबुद्धा विहाय निद्राम् चिरसन्निरुद्धा अनेकरूपाकृतिवर्णना नद्यः समुद्वाहितचक्रवाकास्तटानि शीर्णान्यपवाहयित्वा दृप्ता नवप्रावृतपूर्णभोगादृतम् स्वभर्तारमुपोपयान्ति नीलेषु नीलानववारिपूर्णा मेघेषु मेघाः प्रतिभान्ति सक्ताः दवाग्निदग्धेषु दवाग्निदग्धाः शैलेषु प्रमत सन्नाद बर्ण सक्र गोपाकुशाद चलती नीपाजुन वासीता गजुना नवाबुरा हत केसरा दुत पर्य सरोहा कदंब पुष्पा सकेसरा नवा हृष्टा भ्रमरा पिबंसी महत्ता गजेन्द्रामुदिता गवेन्द्र वनेषु विक्रान्त तरा प्रक्रीडितो वारिधरैः सुरेन्द्रः मेघाः समुद्भूत समुद्र नादा वर्ष प्रवेगा विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्णवेगाः प्रणष्टकूलाः प्रवहन्ति शीघ्रम् नद्यो जलम् विप्रतिपन्नमार्गाः नरैर्नरेन्द्र इव पर्वतेन्द्राः सुरेन्द्र दत्तैः पवनोपनीतैः घनाम्बुकुम्भैरभिषिच्यमाना रूपम् घनोपगूढम् गगनम् न तारा न भास्करो दर्शनमभ्युपैति नवैर्जलौघैर्धरणी वितृप्ता तमो विलिप्ता न दिशः प्रकाशाः महान्ति कूटानि महीधराणाम् धाराविधौतान्यधिकम् विभान्ति महाप्रमाणैर्विपुलैः प्रपातैर्मुक्ताकलापैर्वलम्बमानैः शैलोपलप्रस्खलमानवेगाः शैलोत्तमानाम् विपुलाः प्रपाताः गुहासु सन्नादित बर्हिणा सुहारा विकीर्यन्त इवा पतन्तो महागुहोत्सङ्गतलैर्ध्रियन्ते सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः पतन्ति चातुरा दिक्षुतो यधाराः समन्ततः विलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः विकसन्त्या च मालत्यागतोस्तायते रविः सेनापथ्येव समीकृताः मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानाम् विवक्षता अयमध्यायसमयः सामगानामुपस्थितः विवृत्तकर्मा यतलो नूनम् सञ्चितसञ्चयः आषाढीमभ्युपगतो भरतः कोसलाधिपः नूनमापूर्यमाणायः सरय्वावर्धते रयः माम् समीक्ष्य समायान्तमयोऽध्याया इवस्वनः हिमा स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते विजितारिः सदारश्च राज्ये महति च स्थितः अहम् तु हृतदारश्च राज्याच्च शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः रावणश्च महान् शत्रुरपारः प्रतिभाति अयात्राम् चैव दृष्ट्वे माम् मार्गांश्च भृशदुर्गमान् प्रणते चैव सुग्रीवे न मया किञ्चिदीरितम् अपि चापि परिक्लिष्टम् चिराद्दारैः समागतम् आत्मकार्यगरीयस्त्वाद्वक्तुम् नेच्छामि वानरम् स्वयमेव हि विश्रम्यज्ञात्वा कालमुपागतम् उपकारम् च सुग्रीवो वेत्स्यते नात्र संशयः तस्मात् कालप्रतीक्षोऽहम् स्थितोऽस्मि शुभलक्षणा सुग्रीवस्य नदीनाम् च प्रसादमभिकाङ्क्षयन् उपकारेण वीरो हि प्रतीकारेण युज्यते अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववताम् मनः अथैव मुक्तः प्रणिधाय उवाच रामम् स्वभिराम दर्शनम् प्रदर्शयन् दर्शनमात्मनः शुभम् यदुक्तमेतत्तव सर्वमीप्सितम् नरेन्द्र कर्ता रिपुनिग्रहे धृतः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये इश्किध कांडे अष्टाश